मार्कण्डेयपुराणम् अध्यायं 73 त्रि मार्कण्डेय उवाच मन्वन्तरे तृतीयेऽस्मिन् औत्तमस्य प्रजापतेः देवानिन्द्रमृषीन्भुवान् निबोधगदतो मम स्वधा मानस्तधा देवा यथा नामानुकारिणः सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः तृतीये दुर्गणे देवा शिवाख्यामुनिसत्तमा शिवास्वरूपतस्थेतुश्रुता पापप्रणाशनाः प्रदर्दनाख्यश्च गणो देवानां मुनिसत्तम चतुर्थस्तत्र कथित औ्तमस्या मनोहर पशवर्तिन पंचमे देवास्णे ईद्यातस्वस्व महामुनेच दे दे स्मृता यज्ञुजस्त मन्वंतरे मनुश्रेष्ठे सर्वे द्वादश तेषामिन्द्रो महाभागस्त्रैलोक्ये स गुरुर्भवेद् शतं क्रदूनामाहृत्य सुशान्तिर्नाम नामतः यस्योपसर्गनाशाय नामाक्षरविभूषिता अद्यापि मानवैर्गाधा गीयते तु महीतले सुशान्तिर्देवराट्कान्तः शुशान्तिं स प्रयच्छति स हिदशिवसत्याद्यैस्तथैव वशवर्तिभिः अजः परशुचिर्दिव्यो महाबलपराक्रमः पुत्रस्तस्य मनोरास्सन् विख्यातास्त्रिदशोपमाः तच्छूदिसम्भवैर्भूमिः पालिता भून्नरेश्वरैः यावन्मन्वन्तर तस्य मनोरुत्तमतेजसः चतुर्युगानां सङ्ख्याता साधिकाह्येकसप्ततिः कृतत्रेदादिसंज्ञानां यान्युक्तानि युगे मया स्वतेजसाहि तपसो वरिष्ठस्य महात्मनः तनयाश्चान्दरे तस्मिन् सप्तसप्तर्षयो सब्तार भवन् तृतीयमेतत्कथितं तव मन्वन्तरं मया तामसस्य चतुर्दन्धुमनोरन्दरमुच्यते वियोनिजन्मनो यस्य यशसाद्योदिदं जगद जन्म तस्य मनोर्ब्रह्मन् श्रूयदां गदतो मम अदीन्द्रियमशेषाणां मनूनां चरितं तथा तथा जन्माभिविज्ञेयं प्रभावश्च महात्मनाम् इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे त्रिसप्ततितमोऽध्यायः ओ